गणेशपुराणं क्रीडाखण्डम् अध्यायं सेवेण्टि वन् क उवाच अपरस्मिन् दिने ब्रह्मन् राजा भद्रासनं गदः अमात्यान् अमात्यान्वीरमुख्यांश्च वृद्धांश्च सुहृदो द्विजान् अकार्यचनमस्कृत्य जगादहदि संस्थितम् राजोवाच विवाहायदुपुत्रस्य समाहूतो विनायकः उत्पादा बहवो जातास्ते च तेन निराकृताः अतिथ्यै च मया प्रोक्तं शीघ्रं ते, ते तनयं शुभम् आनयिष्ये तत्र बहुदिवसात् जग्मुरञ्जसा स्वस्थेषु त्रिषु लोकेषु विवाहोऽस्य विचिन्त्यताम् महाराज सम्यग्ुप्तं महाराजविलम्बो जादो विवाह विवाहकार्येऽस्मिन् गदेस्मिन् स विधीयता विनायकप्रसादेन सर्वमव्याकुलं जगद दूरस्थानाञ्च सुहृदां प्रेक्ष्यन्ता लग्नपत्रिकः दूतांश्च सर्वसंभारान् कर्तुं ग्रामेषु युज्यतां क उवाच इति प्रकृतिवाक्यानि श्रुत्वा लोकास्सभासदः साधु क्लमिति तत्रोचुस्तदो राजा जहर्ष ज्योतिर्विद्भिर्लग्नदिनं निश्चिकाय तदैव सः प्रशयामास सुहृदो दुदानाकारितुं शुभान् सामग्रीं कारयामास दुधैराप्तैर्यथाविधि तदो मघधराजोऽपि सुधामादाय तां पुरीं आययुः सर्वसुहृदो नानादिग्भ्यः समागताः उपायमानि भूरिणि ददुस्तेऽन्योन्यमादराद देवतास्तापनं तौ च चक्रदुस्सुमहोत्सवान् साङ्गोपाङ्गविवाहं तौ सम्यक् सम्पाद्य तोषयामास दुर्विप्रान् सर्वलोकान्धनादिभिः विसृज्य सुहृद सर्वांस्ततो राजा विनायकं भूषयामास विविधैर्भूषणैरंशुकैर्वरैः अभ्यज्य भोजयामास स्वाद्वन्नं सह बन्धुभिः तदो रथं समारुह्य सहतेन नृसत्तमः ययौ मादित्रिनिर्घोषयि कश्यपाश्रममुत्तमं तदो नागरिकाः सर्वे हित्वा कृत्यानि निर्ययुः भोजनं पठनं निद्रा व्यासङ्गतत्यजुस्तदा अकृत्वा स्वस्वेषं ते त्वरया पुराद तदो बालसहस्राणि रुरुधुस्तं विनायकं, अस्मां त्यक्त्वा कथं यासि गदः गमिष्य यदि पूर्वं नः कथं नोक्तं प्रसङ्गदः अभुक्त्वा स्मद्गृहे यासि कथं तं निजमाश्रमं कश्चिद्बालो दधारास्य पादपद्मं रुदन्मुहुः कश्चित् स्नेहात् समालिङ्ग्य दधारकरपङ्कजं पौराङ्गनास्तथैव बाला मुग्धाः स विपर्यस्य निजाभूषा आययुस्तं विलोकितुं यदा पाधो निधिं सर्वां वर्षाकाले समुद्रगाः यान्दिकं सा यथा मुक्ता समूहं मरुतो हरिम् यासि विनायक अकस्मात् स्नेहमुत्सृज्य कथम् निष्ठुरताम् कदः क उवाच रथादवततारासौ दृष्ट्वा तान् नृपसंयुधः परिश्रान्तान्धावमानान् स्खलदपदोऽपि च तानुवाच ततः सर्वान् मुहूर्तम् नृपेण सहिदशीघ्रमागदो नगराद् बहिः इदानीं प्रार्थयेत् सर्वान्न त्याज्या करुणामयि अपराधास्तु क्षन्तव्या मया वः कृताः न च त्याज्य परिचयो यदिवो दर्शनं भवेद एवं तद्वाक्यमाकर्ण्य पौरा सर्वे शुचान्विताः रोमाञ्चाञ्चिदमात्रास्ते प्रोजुर्गद्गदया गिरा जनाऊजुः न मायामायिनस्तेऽस्ति सर्वस्य जगतः पितुः न पिता सापराधा न पि ध्रुवं न कथं निष्ठुरधं याधः कथं गन्तुं समुत्सुकः पूर्वमेव न चागाश्चेत्तदा शोको न सम्भवेद चोरयित्वा कथं यासि सर्वेषां नो मनांसि च कथं कार्यं करिष्यामो निदेषु नो मनस्सु जले नष्टे जलचर कदम जीवन्ति तद्वदा प्राणे गरीरेण किं प्रयोजनमस्ति नः कस्तत्र प्रदिकारस्य दिक्षु चेत्स्रवदे विषं तस्मान्नो नय यत्रत्वं व्यासि यासि तत्र स्वकिङ्करान् तद्वजः परिकर्ण्याः सौ प्रोजे गद्गदया गिरा मुञ्चन्नेत्राश्रुबहुलम् सर्वान् स्त्रीवृद्धबालकान् देव उवाच न खेदः नवियोगो कार्यो न वियोगो मम क्वचिद सर्वान्तर्यामिणोपायहीनस्यानन्दरूपिणः न चित्तस्य समाधानं भवेद्वै चिन्तने न मे मम मूर्तिमृदा कृत्वा पूजयन्तु गृहे गृहे सङ्कटं वो यदा तदा जनाः साक्षात्कारं प्रदास्यामि नाशयिष्यामि सङ्कटं क वचनम् तत्समाकर्ण्य ननन्दुसर्वनागराः सर्वनागराः नेमुःप्रदक्षिणीकृत्य जयशब्दै प्रदुष्टुः गृहीत्वाज्ञां ययुः सर्वे पौरा स्वं स्वं निवेशनं विनायकोऽपि शीघ्रं स रथारूढो ययौ पुरः काशिराजेन सहितो मातृदर्शनलालसः सददर्शपरावृत्यं मुखं पौरकुमारकान् आक्रन्दतस्तानुवाच पुनर्यास्ये वजन्तु हि चिन्तानकार्या सत्यं वो ब्रवीमि नानृतं क्वचित् एवं तान् स्वपरावृत्त्यक्षणात् स्वाश्रममाप्तवान् इति श्रीगणेशपुराणे क्रीडाखण्डे विनायकाश्रमं प्रतिगमनं नामैकसप्ततितमोऽध्यायः ओ